अहम् पूर्वमहम् पूर्वम् इत्यन्योन्यम् निजघ्नतुः तौ गदाभिहतौ भीमौ वेततुर्धरणीतले रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ न भश्च्युतौ ततस्ता विद्रुता नार्यः स पातालमगमत् सर्वो विषादभयकम्पितः ततः पितामहस्तत्र सह देवैर्महर्षिभिः आजगाम विशुद्धात्मा पूजयश्च वरम् दित्सुः स तत्रीणाम् प्रीतः प्राहपितामहः आदित्यचरितान् लोकान् विचरिष्यसि भाविनी तेजसा च सुदृष्टाम् त्वाम् न करिष्यति कश्चन एवम् तस्यै वरम् दत्वा सर्वलोकपितामहः इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकम् गतः प्रभुः नारद एवम् तौ सहि तौ भूत्वा सर्वार्थेष्वेकनिश्चयौ तिलोत्तमार्थम् सङ्क्रुद्धावन्योन्यमभिजज्ञतुः तस्माद्ब्रवीमिव स्नेहात् सर्वान् भरत सप्तमाः यथा वो नात्रभेदः स्यात् सर्वेषाम् तथा कुरुत वो मम चेत्प्रियमिच्छथ